ब्रह्माण मध्यभाग्या थर्टिईट भागवचरिता वसी उवाच गदे कृष्णे अंतर्धन गदेषेमस्त सुम्हाय स्रिक्तम मेने कृष्णु अकृतव्रणसंयुक्तः प्रदीप्ताग्निरिवज्वलन् समायदो भार्गवोसी पुरीं महिष्मदीं प्रति यत्र पापहरा पुण्या नर्मदा सरितां वरा पुनादिदर्शनादेव प्राणिनः पापिनो पुरात्रयहरेणापि निविष्ठे नमहात्मना त्रिपुरस्य विनाशाय कृतो यत्नो महीपते तत्र किं वर्ण्यते पुण्यं नृणां देवस्वरूपिणां स दृष्ट्वा नर्मदाम्भूपभार्गवकुलनन्दनः नमश्चकार सुप्रीतशत्रुसाधनतत्परः नमोस्तु नर्मदे तुभ्यं हरदेहसमुद्भवे क्षिप्रं नाशयशत्रून्मे वरदा भवशोभने इत्येवंश नमस्कृत्य नर्मदां पापनाशिनी दूदं प्रस्तापयामास कार्तवीर्यार्जुनं प्रदि दोद राजा त्वया वाच्यो यदहं वच्मिते ते नख न संदेहस्त्वया कार्यो दूधक्वापि न यद्बलं तु समाश्रित्य जमदग्निमुनिं नृपः तिरस्त्वं तत्पुत्रो योद्धुमागतः शीघ्रं निर्गच्छ मन्दात्मन्युद्धं रामाय देहि तत भार्गवं त्वं समासाद्य गच्छ लोकान्तरं त्वरा इत्येवमुक्त्वा राजानं श्रुत्वा तस्य वचस्तथा शीघ्रमागच्छ भद्रन्ते विलम्बो नेखशस्यते तेनैव मुक्तो दूतस्तु गतो हैहयभूपतिं है रामोदितं तत्सकलं श्रावयामास संसदि स राजात्रेयभक्तस्तु महाबलपराक्रमः चुक्रोधश्रुत्वा वाच्यं तद्दूदमुत्तरमावहद कार्तवीर्य उवाच मया भुजबलेनैव दत्तदत्तेन मेदिनी जिद प्रसह्य भूपाल बध्वानीयजुर तद्बलि वर्द युद्धम दा तवाधुना विसर्जाशुदूदम हईहय भूपति सेनाध्यक्ष सहूय प्रोवाच वदतां वरह सज्जं कुरु महाभागसैन्यं मे वीरसम्मतः योस्ये रामेण भृगुणा विलम्बो मा भवत्विति एवमुक्तो महावीरसेनाध्यक्षप्रतापनः सैन्यं सज्जं विधायासु चतुरङ्गन्यवेदयत् सैन्यं सज्जं समाकर्ण्य कार्तवीर्यो नृपो मुदा स्वरध स्वरथमारुरोह विशाम्पदे तस्य राज्ञः समन्धा तु सामन्दा मण्डलेश्वराः अनेकाक्षौहिणीयुक्ताः परिवार्योपतस्थिरे नागास्तु कोडिशस्तत्र हयस्यन्दनपत्तयः असंख्यादा महाराज सैन्ये सागरसन्निभे दृश्यन्ते तत्र भूपाला नानावंशसमुद्भवाः महावीरामहाकाया नानायुद्धविशारदाः नाना शास्त्रास्त्रकुशला नाना वा गदा नृपाः नानालङ्कारसंयुक्ता मत्ता दानविभूषिताः महामात्रकृते शाभान्दिना गाह्यने कषः नानाज्ञादिसमुत्पन्ना हया पवनस प्लबंदो भांदूपालशिक्षण स्यंद सुदीर्घा जवनाश्व चक्र निर्घोषयुक्ता प्रृंडमेघोपी पदातयस्तुरा चन्दे खड्गचर्मधरा नृप अहं पूर्वमहं पूर्वमित्यहं पूर्वकान्विताः यदा प्रचलितं सैन्यं कार्तवीद्यार्जुनस्य वै तदा प्राच्छादितं व्योम रजसा नानावादित्र निर्घोषैर्षयानां प्रेषितैस्तथा गजानां बृंहितैराजन्व्याप्तं गगनमण्डलं मार्गे ददर्शराजेन्द्रो विपरीतानि भूपते शकुनानिरणे तस्य मृत्युदौत्यकराणि च मुक्तकेषां चिन्ननासां रुदतीं च कृष्ण कृष्णवस्त्रपरिधानां वनितां स ददर्शः कुचैलं पतिदं भग्नं नग्नं काषायवासम् अङ्गहीनं ददर्शासौ नरं दुःशितमानसं गोधां च शशकं शल्यं रिक्तकुम्भं सरीमृपं कार्पासं कच्छपं तैलं लवणं चास्ति कण्टकं स्वदक्षिणे शृगालं च कुर्वन्तं भैरवं रवम् रोगिणं पुल्कसं चैव स्पृशं च शेन भल्लुकौ दृष्ट्वापि प्रययौ योद्धुं कालपाशातो हाद नर्मदोत्तरतीरस्तोक्ष्यकृतव्रणसंयुतः वडच्छायासमासीनो रामो पश्यदुपागतम् कार्तवीर्यं नृपवरं शतकोटिनृपान्वितं सहस्राक्षौहिणीयुक्तं दृष्ट्वा बभूवः अद्य सिद्धिमायादं कार्यं चिरसमीहितं यद्दृष्टिगोचरो जातःकार्तवीर्यो नृपाधमः मुक्त्वा चोद्धाय धृत्वा परशुमायुधं व्यञ्जृभतारिनाशाय सिंहक्रुद्धो यथा तथा दृष्ट्वा समुद्यतं रामं सैनिकानां वधाय च चकम्पिरे भृशं सर्वे मृत्योरिव शरीरिणः स यत्र यत्रानिलरंह सम्भृगुश्चिक्षे परोषेण युधः परश्वधम् तदस्तदश्चिन्नभुजोरुकङ्करा नागाहया शूरनरा निपेतुः यथा मदयुक्समन्ततो नालं भर्दयदि प्रधावन् तथैव रामोऽपि मनोनिलौजा विमर्दयामास नृपस्य सेनां दृष्ट्वा तमित्थं प्रहरन्दमोजसा रामं रणे शस्त्रभृदां वरिष्ठम् उद्यम्य चापं महदास्थितो रथम् सृज्यं च कृत्वा किल मन्स्यराजः आकृष्यवाणाननलोग्रतेजसः समाकिरन् भार्गवमाससादृष्ट्वा तमायान्तमधो महात्मा रामो गृहीत्वा धनुषं महोग्रम् वायव्यमस्त्रं विदधे रुषाप्लुतो निवार यन्मङ्गलबाणवर्षं स चापि राजादिबलो मनस्वी ससर्जरामायदु पर्वतास्त्रम् तस्तम्भतेनादिबलं तदस्त्रं वायव्यमिष्वस्त्रविधानदक्षः रामोपि तत्रादिबलं विदित्वा तं मत्स्यराजं विविधास्त्रपूगैः किरन्दमाजौ प्रसभं सुमोच नारायणास्त्रं विधिमन्त्रयुक्तं नारायणास्त्रे भृगुणाप्रयुक्ते रामेण राजन्नृपदेर्वधाय दिश्यस्तु सर्वास्सुभृशं हि तेजसा प्रज्ज्वलुर्मपदिश्च कम्बे रामस्तु तस्याध विलक्ष्यकम्बं बाह्णैश्च वाहान। शरेण चैकेन ध्वजं महात्मा चिच्छेदचापं च शरद्वयेन बाणेन चैकेन प्रसह्य सारधिम् निपात्य भूमौ रथमार्दयत्रिभिः त्यक्त्वा रथं भूमिगतं च मङ्गलं परश्वधेनाशो जखानमूर्धनि सभिन्नशीर्षो रुधिरं वमन्मुहुर्मुर्च्छामवाप्याध ममारचक्षणाद तत्सैन्यमस्त्रेण च सम्प्रदग्धं विनाशमायादध भस्मसाक्षणाद तस्मिन्निपतिते राज्ञि चन्द्रवंश समुद्भवे मङ्गले नृपतिश्रेष्ठे रामो हर्षमुपागतः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धादपादे भार्गवचरिते अष्टात्रिंशत्तमोऽध्यायः ओ